सततं चाज्यधाराभिरैकात्न्येतत्र कर्मणि हविषाच ततो वह्निः परां तृप्तिमगच्छत न चैच्छत् पुनरादातुं हविरन्यस्य कस्यचित् पाण्डुवर्णो विवर्णश्च न यथावत् प्रकाशते ततो भगवतो वह्नेर्विकारः समजायत तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत् स लक्षयित्वा चात्मानं तेजोहीनम् हुताशनः जगामसदनं पुण्यं ब्रह्मणो लोकपूजितम् तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत् भगवन्परमा प्रीतिः कृता श्वेतकेतुना अरुचिश्चावत्तीव्रता न शक्नोमो तेजस विप्रहीणोस्म बलत्पते इच्छेय प्रसाद स्वात्म प्रकृति स्थिरातवहा भगवान् सर्वलोककृत। हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव त्वया द्वादशवर्षाणि वसोर्धाराहुतं हविः उपयुक्तं महाभागतेन त्वां ग्लानिराविशत् तेजसा विप्रहीणत्वात् सहसाहव्यवाहन मागमस्त्वं यथा प्रकृतिस्थो भविष्यसि अरुचिं नाशयिष्येऽहं समयं प्रतिपद्यते पुरा देवनियोगेन यत् त्वया भस्मसात्कृतम् आलयम् देवशत्रूणाम् सुघोरम् खाण्डवं वनम् तत्र सर्वाणि सत्त्वानि निवसन्ति विभावसो तेषाम् त्वम् मेदसातृप्तः प्रकृतिस्थो भविष्यसि गच्छशीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्बिषात् एतच्छ्रुत्वा वचनं परमेष्ठी परमेष्ठिमुखाच्युतम् उत्तमं जवमास्थाय प्रदुद्रावहुताशनः आगम्यखाण्डवं दावमुत्तमं वीर्यमास्थितः सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः